अथ पञ्चसप्ततितमः सर्गः रामदाशरथे वीरवीर्यम् ते श्रूयतेऽद्भुतम् धनुषो भेदनम् चैव निखिलेन मया श्रुतम् तदद्भुतमचिन्त्यम् च भेदनम् धनुषस्तथा तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्या परम् शुभम् तदिदम् घोर तदहंते बलम् दृष्ट्वा धनुषोऽप्यस्य पूरणे द्वन्द्वयुद्धम् प्रदास्यामि वीर्यश्लाघ्यमहन्तव तस्य तद्वचनम् श्रुत्वा राजा दशरथस्तदा विषण्णवद नो क्षत्ररोषात् प्रशान्तस्त्वम् ब्राह्मणश्च महातपाः बालानाम् मम पुत्राणामभयम् दातुमर्हसि भार्गवाणाम् कुले जातस्वाध्यायव्रतशालिनाम् सहस्राक्षे प्रतिज्ञायशस्त्रम् प्रक्षिप्तवानसि सत्त्वम् धर्मपरो भूत्वा कश्यपाय वसुन्धरा दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः मम सर्वविनाशाय सम्प्राप्तस्त्वम् महामुने न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ब्रुवत्येवम् दशरथे जामदज्ञः प्रतापवान् अनादृत्य तु तद्वाक्यम् राममेवाभ्यभाषत इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते दृढे बलवती मुख्ये सुकृते विश्वकर्मणा अनुसृष्टम् सुरैरेकम् त्र्यम्बकायैत्सवे त्रिपुरघ्रम् नरश्रेष्ठभाग्रम् काकुत्स्थय त्वया इदम् द्वितीयम् दुर्धर्षम् विष्णोर्दत्तम् सुरोत्तमैः तदिदम् वैष्णवम् रामधनुः परपुरञ्जयम् समानसारम् काकुत्स्थ रौद्रेण धनुषात्विदम् तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् शितिकण्ठस्य विष्णोश्च विज्ञाय देवतानाम् पितामहः विरोधम् जनयामास तयोः वरः विरोधेतुमहद्युद्धमभवद्रोमहर्षणम् श्रुतिकण्ठस्य विष्णोश्च परस्परजयैषिणोः तदा तु जृम्भितम् शैवम् धनुर्भीमपराक्रमम् हुङ्कारेण महादेव स्तम्भितोऽथ त्रिलोचनः देवैस्तदा समागम्य सर्षि अधिकम् मे निरे विष्णुम् देवाः सर्षिगणास्तथा धनुद्रस्तु संक्रुद्धो विदेहेषु महायशाः देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् इदम् च वैष्णवम् राम धनुः परपुरञ्जयम् रुचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम् ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः पितुर्मम ददौ दिव्यम् जमधग्नेर्महात्मनः न्यस्तशस्त्रेऽपि पितरिमे तपो बलसमन्विते अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिमास्थितः। स्थितः वधमप्रतिरूपम् तु पितुः श्रुत्वा सुदारुणम् क्षत्रमुत्सादयम् रोषाज्जातम् जातमनेकषः पृथिवीम् कश्यपाय महात्मने यज्ञस्यान्ते तदम् रामदक्षिणाम् पुण्यकर्मणे दत्त्वा महेन्द्रनिलयस्तपो बलसमन्वितः श्रुत्वा तु भेदं भेदम् ततोऽहम् द्रुतमागतः तदेवम् वैष्णवम् राम पितृपैतामहम् महत् क्षत्रधर्मम् पुरस्कृत्य गृह्णीष्वधनुरुत्तमम् योजयस्वधनुश्रेष्ठे शरम् परपुरम् जयम् यदि शक्तोऽसि काकुत्स्थद्वन्द्वम् दास्यामि ततः त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः